श्रीमद्भागवत्महापुराणं चतुर्थे स्कन्ध अथैकोनत्रिंशोऽध्यायः दुःखे स्वेकतरेणापि दैवभूतात्महेतुषु जीवस्य न व्यवच्छेदस्याद् प्रतिक्रियां यथा हि पुरुषो शिरसा गुरुमुद्वहन् तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः नैकान्ततप्रतीकारकर्मणां कर्म, कर्म केवलं द्वयं ह्यविद्योपसितं स्वप्ने स्वप्न इवानघ अर्थे श विद्यमानेऽपि संसृतेन निवर्तते मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा संसते तद्व्यवच्छेदो भक्त्या परममां गुरो वासुदेवे भगवति भक्तियोगसमाहितः सन्धि चीनेन वैराग्यं ज्ञानं च जनिष्यते शोचिरा देवराजर्षे स्यादच्युतकथाश्रयः शृण्वत सानस्य नित्यदास्यादधीयतः यत्र भागवता राजन् साधो विशदाशयाः भगवद्गुणानुकथनश्रवणव्यग्रचेतसः तस्मिन् महन्मुखरिता मधुवे चरिद्रपि यो शेषचरितपरितस्रवन्ति ताये पिबन्त्यपितृशोऽपगाढकर्णैस्तान्यस्मि सन्त्यशोकमोहा एतैरुपद्रुतो नित्यं जीवलोकशोभावजै न करोति हरेणूनं कथामृतनिदौ रतिम् प्रजापतिम्पति साक्षाद्भगवान् गिरिशो मनुः दक्षादयप्रजाध्यक्षा नैषिकाशनकादयः हरेचैरत्यङ्गिरिशौ पुलस्त्य पुलः क्रतो धृगुर्वसिष्ठेत्येते मदन्ता ब्रह्मवादिनः अद्यापि वाचस्पतय तपोविद्यासमाधिवी पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् शब्दब्रह्मणि दुष्पारे चरन्त उर्विस्तरे मन्त्रलिङ्गै व्यवच्छिन्नं भजन्तो न विदुः परम् यदा यमनुगृह्णाति भगवानात्मभावितः स जहातिं मतिं लोके वेदे च परिनिष्ठितां तस्मात्कर्मसु बर्हिस्मन्न ज्ञानादर्थकाशिषो मार्थदृष्टिं कृथा श्रोत्रः स्परसि स्वस्पृष्टवस्तुषु तं लोकं न विदुस्ते वै यत्र देवो जनार्दनः आहुर्धुम्रधियो वेदं स कर्म कव तद्विदः आस्तिर्यदम्भै प्रागाग्रैः काष्ठेन क्षितिमण्डलं शब्धो बृहद्वधान्माली कर्म नावेशि तत्कर्म हरितोषं यस्या विद्या तन्मतिर्ययां हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः तत्पादमूलं शरणं यतः क्षेमो तवै स वै प्रियतमश्चात्मा यतो न भयमण् इति वेद स वै विद्वान् यो विद्वान्स गुरुर्हरिः नारद्वाच तस्न एवं हि सञ्च्छिन्नो भवतः पुरुषर्षभ अत्र मे वदतो गुह्यं निशा मे क्षुद्रं चरं सुमनशां शरणे म्यथित्वा रक्तं षड्रे गणशामसु लुब्धकर्णम् अग्रे विकानसुतपो विगण्यजान्तं तिष्ठे मृगं मृगे लुब्धकपाडभिन्नम् अस्यार्थ सुमनसधर्मणां स्त्रीणां शरण आश्रमे पुष्पमन्धो गन्धवच्छुद्रतमं काम्यकर्मविपाकचम् कामसुक्लभं जैहोपस्थादिविचिन्वतं मिथुनिर्भूय तद्भिन्नि विषे मेसितं मनसं षड्गीगणशामगीतवदमितं मितं वदति मलोहर वनितादिजनालापे स्वतितराम् अतिप्रलोभितकर्णमग्रे विकं यूथ वदात्मन आयुर्हर्तो हरो अहोरात्रान्तान् काललवविशेषान्वविगण्यय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रविद्धो लब्धककृतान्तोऽन्तशरेण यमिह तमीम विध्यते तमीममात्मान महोराजन् भिन्नहृदयं द्रष्टुमर्हसीति स तं विचक्ष्वमृगतिं मृगचेष्टितमात्मनोन्तं चित्तं नियच्छैते कर्णधुनिं च चित्ते देह्यङ्गनाश्रममसत्तमयूत्वगाथं प्रीडेहि हंसचरणम् बिरमक्रमेण राजोवाच श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत नैतज्जाननन्त्योपाध्याया किं न ब्रियुविदुर्यति तन्थयोऽत्र तु मे महान् ऋषयोऽपि मुह्यन्ते यत्र नेन्द्रियवृत्तयः कर्माण्यारभते येन पुमानि विहाय तम् अमुत्राण्येन देहेन जुष्टानि इति वेदविदां वाद श्रूयते तत्र तद्रः कर्म यत् यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते